श्रीमद्भागवतमहापुराणं दशमस्कन्ध अथ पञ्चदशोऽध्यायः धेनुकासुरका उद्धार और् ग्वालबालोको कालीयनाक्ये विश्वसे बचानां शेषु कुवाच तदश्च पौगण्डवय श्रुतौ व्रजे बभूवतु स्तौ पशुपालसम्मतौ गाश्चालयन्तौ सखिवी समं पदैः वृन्दावनं पुण्यमतीव चक्रतो तन्माधवौ वेणुमुदीरयन्वृतो गोपे गृणद्भिः स्वयशो बलान्वृतः पशुन् पुरस्कृत्य पशव्यमाविशन् विहर्तु कामः कुसुमाकरं वनं वातेन ज्युष्टं सतपत्रगन्धिना निरीक्षरन्तुं भगवान् मनो दधे स तत्र तत्रारुणवन् पल्लवश्रिया फलप्रसूनोरुभरेण पादयो विसङ्खिखान् वीक्ष्य वनस्पतिन्मुदास्मिन्निवाहाग्रुजमादिसु पुरुष श्रीभगवानुवाच अहो अमीदेव देववरामरार्जितं पादाम्बुजं ते सुमनपलार्हणं नमन्त्यपादाय शिखाभिरात्मन तमोपहत्य हैतरुजन्म यद्गतं यते लीनस्तव यशोऽखिलोकतीर्थं गायन्त आदिपुरुषानुपदं भजन्ते त्रायो अमि मुनिगणा भवदीयमुख्या गूढं वनेऽपि न जहज्जनकात्मदैवं नित्यन्तमेव शिखं शिखनयुज्यमुदाहरिण्यः कुर्वन्ति गोप्ययुते प्रियमिक्षणेन सुक्दैश्च कोकिलगणा गृहमागताय धन्यावनौकशीयानि सतां निसर्गः धन्येयमद्यधरणि तृणवीरुधस्तन्पादावृतो द्रुमलता करजाभिमिष्टाः नद्योद्रयखगमृगासदयावलोकैर्गोप्योऽन्तरेण भुजयोरपि यस्पहा श्रीं शिशोकुवाच एवं वृन्दावनं श्रीमत्कृष्णप्रीतमनापशुन् देमे सञ्चारयन्नद्रे सरिद्रोधस्य सानुगः क्वचिद्गायति गाय सों मदान्धाले स्वनौव्रतये उपगीयमानचरितसृग्वी सङ्कर्षणान्वितः क्वचिच्च कलहंसानाम् अनुकूजति कूजितम् अभिनेत्यति नित्यन्तं बर्षिणं हासयन् क्वचिन् मेघगम्भीर्यावाचानामभिर्दुर् गान् पशुन् क्वचिद्दाह्वती प्रीत्या गोगोपालमनोज्ञयां चकोरकोञ्चचक्राह्वं धारद्वाजां च बर्हिणः अनुरोति स्म सत्त्वानां भीतवद्वाघसिंहयो क्वचित्क्रीडा परिश्रान्तं गोपो सङ्गोपबर्हणं निद्यतो गायित क्वापि वल्गतो युध्यतो मिथ गृहीतहस्तौ गोपालान् हसन्तो प्रशशंसतुः क्वचित्पल्लवतल्पेषु निरुद्धश्रमुकर्षितः वृक्षमूलाश्रियशेते गोपो सङ्गोपबर्हणः पादसंवाहनं चक्रु केचित्तस्य अपरेहत् हतपाप्मानो जजने समुवीजयन् अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः गायन्ति स्म महाराज स्नेहक्लिन्नधियशनैः एवं निगूढात्मगति समाया गोपात्मजत्वं चरितैर्विडम्बयन् रे रमालालितपादपल्लवो ग्रामै समं ग्राममधीशचेष्टितः श्रीरामा नाम गोपालो रामकेशवयो सखां सुबलस्तोककृष्णाद्या गोपाप्रेम्णेदमब्रुवन् राम सुबलस्तो गो रामराम महाबाहो कृष्णदुष्टानिवर्हण इतोऽपि दूरे सुमहन्तरं तालालिसङ्कुलम् फलानि तत्र भूरिणि पतन्ति पतितानि च सन्ति कृत्वा रुद्धानि धेनुकेन दुरात्मनां शोचवीर्योऽसुरो राम श्रीकृष्णखररूपधे आत्मतुल्यबलैरग्यैर्ण्यैर्ज्ञातिभिर्बहुभिर्वितः तस्मात्कृतनराहारान् भीतैर्भीरमिद्रहन् न सेव्यते पशुगणैः पक्षिसङ्गैर्विवर्जितम् विद्यन्ते भुक्तपूर्वाणि फलानि सुरभीणि च ये स वै सुरभिर्गन्धो विसूचीनोपगृह्यते कृष्ण न दोभित दोभितचेतसां वाञ्छास्ति महती रामगम्यतां यदि रोचते एवं सुहृद्वच श्रुत्वा सुहृद्रियचिकीर्षयाम् प्रहस्य जग्मतुर्गोपैर्ृतौलान्तालवनं प्रभु बलप्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् फलानि पातयामास मतङ्गौजशा